देवयान्युवाच सर्व एव नरश्रेष्ठ विधानमनुवर्तते विधानविहितं मत्वा मा विचित्राः कथा कृथाः राजवद्रूपवेशौ वाचं बिभर्षि च को कस्य पुत्रश्च शंसमे ययातिरुवाच ब्रह्मचर्येण वेदोमे मे कृष्णश्रुतिपथं गतः राजाहं राजपुत्रश्च ययातिरिति विश्रुतः देवयान्युवाच केनास्यर्थेन नृपते इमं देशमुपागतः जिघृक्षुर्वारिजं किञ्चित् अथवा मृगलिप्सया ययातिवाच मृगलिपुरह भद्रे पानीयाथम उपागत बहुधाप्युयुक्स्मे तदुर्हसी देवया नुवाच द्वाभ्याम् कन्या सहस्राभ्याम् दास्या शर्मिष्ठया सह त्वदधीनास्मि भद्रं सखा भर्ता च मे भवा ययातिरुवाच विध्यौ शनसि भद्रं ते अविवाह्या हि राजानो देवयानि पितुस्तव देवयान्युवाच संसृष्टम् ब्रह्मणा क्षत्रम् क्षत्रेण ब्रह्मसंहितम् ऋषिश्चाप्य ऋषिपुत्रश्च नाहुशाम्बवः स्व